श्रीगुरुभ्यो नमः हरिः ओम् अपरोक्षानुभूतिः श्रीहरिं परमानन्दमुपदेष्ठारमीश्वरं व्यापकं सर्वलोकानां कारणं तं नमाम्यहम् अपरोक्षानुभूतिर्वै प्रोच्यदे मोक्षसिद्धये तद्भिरेषा प्रयत्नेन वीक्षणीया मुहुर्मुहुः स्ववर्णाश्रमधर्मेण तपसा हरितोषणादसाधनं साधनं पुंसां वैराग्यादि चतुष्टयम् ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् नित्यमात्मस्वरूपं हि दृश्यम् तद्विपरीतकम् एवं यो निश्चयः सम्यग्विवेको वस्तु नः सदैव वासनात्यागशमोऽयमिति शब्दितः निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते विषयेभ्यः परा वृत्तिः परमो परतिर्हि सहनम सहनं सर्वदुःखानां तिक्षा सा शुभामता निगमाचार्यवाक्येषु भक्तिश्रद्धेदि विश्रुता चित्तैकाग्र्यं तु संलक्ष्ये धानिस्मृत संसारबंधन कंस इदिया बुद्धिर्वक्व्या सा मुक्षुता उतसाधनयुक्न विचार पुषेण ही कर्तव्योज्ञान सिद्ध्यथमा शुभ मा नोत्प्य विना ज्ञान विचारेण साधन यहा पदारि प्रकाशेन विना क्वचि कोहम कथम जाता को से उपाद कि विचार सौयमीद नाहम्भूतगणो देहो नाहं चाक्षगनस्तथा एतद्विलक्षणकश्चिद्विचारस्वयमीदृशः अज्ञानप्रभवम् सर्वम् ज्ञानेन प्रविलीयते सङ्कल्पो विविधकर्ता विचारस्वयमीदृशः ये तयोर्यदुपादानमेकं सूक्ष्मं सदव्ययं यदैव मृत्कटादीनां विचारत्सोऽयमीदृशः अहमेकोऽपि सूक्ष्मश्च ज्ञादा साक्षी सदव्ययः तदहं नात्र सन्देहो विचारसोऽयमीदृशः आत्मा विनिष्कलोह्येको देहो बहुभिरावृतः तयोरैक्यम् प्रपश्यन्ति किमज्ञानमदः परम् आत्मा नियामकश्चान्तर्देहो बाह्यो नियम्यकः तयोरैक्यम् प्रपश्यन्ति किमज्ञानमदः परम् आत्मा ज्ञानमयः पुण्यो देहो मांसमयो तयो तयोरैक्यं प्रपश्यन्ति किमज्ञानमदः परम् आत्मा प्रकाशकस्वच्छो देहस्तामस उच्यते तयोरैक्यं प्रपश्यन्ति किमज्ञानमदः आत्मा नित्यो हि सद्रूपो देहो नित्योक्ष्यसन्मयः तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् आत्मनस्तत्प्रकाश्यत्वं यत्पदार्थावभासनं नाग्नादिदीप्तिवद्दीप्तिर्भवत्यान्ध्यं यदो निशि देहोऽहमित्ययमूढो मत्वा तिष्ठत्यहो जनः ममायमित्यपि ज्ञात्वा खडद्रष्टेव सर्वदा ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः निर्विकारो निराकारो निरवद्योऽहमव्ययः नाहं देहोह्यसद्रूपो ज्ञानमित्युच्यते बुधैः निरामयो निराभासो निर्विकल्पोऽहमाततः नाहं देहोह्यसद्रूपो ज्ञानमित्युच्यते निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहमच्युदः नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः निर्मलो निश्चलो नन्दशुद्धोऽहमजरोमरः नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः स्वदेहं शोभनं त्यक्त्वा पुरुषाख्यं च सम्मदं किं मूर्ख शून्यमात्मानं देहातीतं करोषि भोः स्वात्मानं शृणु मूर्खत्वं श्रुत्या युक्त्या च पुरुषं देहातीदं सदाकारं सुदुर्दर्शं भवादृशाम् अहं शब्देन विख्यात एक एव स्थितः परः स्थूलस्त्वेनेकदा प्राप्तः कथं स्याद्देहकः पुमान् अहं द्रष्टृतया सिद्धो देहो दृश्यतया स्थितः ममायमिति निर्देशात् कथं स्याद्देहकः पुमान् अहं विकारहीनस्तु देहो नित्यं विकारवान् इति प्रदीयते साक्षात् कथम् स्याद् देहकः पुमान् यस्मात् परमिति श्रुत्या तया पुरुषलक्षणम् विनिर्णीदम् विशुद्धेन कथम् स्यात् देहकः पुमान् सर्वम् पुरुषये वेदि सूक्ते पुरुषसंज्ञिते अप्युच्यदे यदश्रुत्या कथं स्याद्देहकः पुमान् असङ्घपुरुषप्रोक्तो बृहदारण्यकेऽपि च अनन्दमलसंसृष्टः कथं स्याद्देहकः पुमान् तत्रैवज च समाख्यादस्वयंज्यो दीर्हिपूरुषः जडः परप्रकाशोऽयम् कथम् स्याद् देहकः प्रोक्तोपि प्रोक्तोऽपि कर्मकाण्ठे न स्यात्मा देहाद्विलक्षणः नित्यश्च तत्फलम् भुङ्क्ते देहपादादनन्तरम् लिङ्गम् चानेक संयुक्तम् चलम् दृश्यम् विकारि च अव्यापकमसद्रूपं तत्कथं स्यात् पुमानयं एवं देहद्वया धन्य आत्मा पुरुष ईश्वरः सर्वात्मा सर्वरूपश्च सर्वातिदोहमव्ययः इत्यात्मदेहभावेन प्रपञ्चस्यैव सत्यता यथोक्ता तर्कशास्त्रेण तथ किम् पुरुषार्थता इत्यात्मदेहभेदेन देहात्मत्वम् निवारितम् इदानीम् देहभेदस्य सत्त्वम् स्फुटमुच्यते दे। चैतन्यस्यैकरूपत्वाद्भेदो युक्तो न कर्षिचिद् जीवत्वम् च मृषा ज्ञेयम् सर्पग्रहो यथा रज्ज्वज्ञानाक्षणेनैव यद्वद्रज्जोर्हि सर्पिणी भाति तद्वच्चिदि साक्षाद्विश्वाकारेण केवला उपादानम् प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते तस्मात् सर्वप्रपञ्चोऽयम् ब्रह्मैवास्ति वास्तिन चेतरद व्याप्यव्यापकता मिथ्या सर्वमात्मेदिशासनाद् यदि ज्ञादे परे तत्त्वे भेदस्यावसहकृदः श्रुत्या निवारिदं नूनं नाना त्वं स्वमुखे न हि कदम्भासो भवेद् धन्यस्थिते दोषोऽपि विहितश्रुत्या मृत्योर्मृत्युं स गच्छति इह पश्यदिना नरः ब्रह्मणः जायन्ते परमात्मनः तस्मादेतानि ब्रह्मैव भवन्तीत्यवधारयेद ब्रह्मैव सर्वनामानि रूपाणि विविधानि च कर्माण्यपि समग्राणि बिभर्तिश्रुतिर्जगौ सुवर्णाज्जायमानस्य सुवर्णत्वम् च शाश्वतम् ब्रह्मणो जायमानस्य ब्रह्मत्वम् च तथा भवेद स्वल्पमप्यन्तरम् कृत्वा जीवात्मपरमात्मनोः योऽवतिष्ठधिमूढात्मा भयम् तस्याभिभाषितम् यत्रा ज्ञानाद् भवेद्वैतमितरस्तत्र पश्यति आत्मत्वेन यदा सर्वम् नेतरस्तत्र जाण्वपि यस्मिन् सर्वाणि बोधानि क्यात्मत्वेन विजानतः न वैदस्य भवेन्मोहो न च शोको द्वितीयदः अयमात्मा हि ब्रह्मैव सर्वात्मकतया स्थितः इति निर्धारितं श्रुत्या बृहदारण्यसंस्थया अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि असद्रूपो यथा स्वप्न उत्तरक्षणबाधतः स्वप्नो जागरणे लीकस्वप्नेऽपि जाकरो न द्वयमेव लये नास्ति लयोऽपिक्षुभयोर्न च त्रयमेवं भवेन्मिथ्या गुणत्रयविनिर्मितम् अस्य द्रष्टा गुणातीतो नित्यो ह्ये कश्चिदात्मकः यद्वन्मृदि खडभ्रान्तिं शुक्रौ वा रचतस्थितिम् तद्वद्ब्रह्मणि जीवत्वम् भ्रान्त्या पश्यदि न यदा यथा मृदिखो नाम कनके कुण्डलाभिधा सुौ हि रचध्या देर्जीवशब्दस्तथा परे यथैव व्योम्नि नीलत्वम् यथा नीरम् मरुस्थले पुरुषत्वं यथास्ताणौ तद्वद्विश्वं जिदात्मनि यथैव शून्ये वेदालो गन्धर्वाणां पुरं यथा यथाकाशे द्विचन्द्रत्वं तद्वत् सत्ये जगत्स्थितिः यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलं पात्ररूपेण ताम्रं किब्रह्माण्डौ कैस्तथात्मदा खडनाम्ना यथा पृथ्वी पडनाम्ना हि तन्तवः जगन्नाम्ना चिदाभादिज्ञेयं तत्तदभावदः सर्वोऽपि व्यवहारस्तु ब्रह्मणा क्रियते जनैः अज्ञानान्न विजानीमृदे वहि खडाधिकं कार्यकारणता नित्यमास्ते खडमृदोर्यथा तथैव श्रुतियुक्तिभ्यां प्रपञ्चब्रह्मणो निह वृह्यमाणे कडे यद्वन्मृत्तिकाभादि वै बलाद वीक्ष्यमाणे प्रपञ्चे बिभ्रह्मैवा भादिभास्पुरम् तदैवात्मा विशुद्धोऽपिक्ष्यशुद्धो भाधि वै सदा यथैव द्विविधारज्यो ज्ञानिनो ज्ञानिनोऽग्निशी यथैव मृह्मय कुम्भस्तद्वद्देहोऽपि चिन्मयः आत्मानात्मविभागोऽयं मुदैव क्रियते बुधैः सर्पत्वेन यदा रज्जो शुक्रिका विनिर्निदा तदात्मदा खत्वेन यदा पृथ्वी पडत्वेनैव तन्तवः विनिर्णीदा विमूढेन देहत्वेन तथात्मदा कनकं कुण्डलत्वेन तरङ्गत्वेन वैजलं विनिर्णीदा विमूढेन देहत्वेन तथात्मदा पुरुषत्वेन वैस्ताणोर्जलत्वेन मरीचिका विनिर्णीता विमूढेन देहत्वेन तथात्मदा गृहत्वेनैव काष्ठानि खड्गत्वेनैव लोहदा विनिर्णीदा विमूढेन देहत्वेन तथात्मदा यथा वृक्षविपर्यासो जलात् भवति तद्वदात्मनि देहत्वम् पश्यत्यज्ञानयोगदः कोधेन गच्छम् स सर्वम् भाति वचञ्चलम् तद्वदात्मनि देहत्वम् पश्यत्यज्ञानयोगदः पिदत्वम् हि यथा शुभ्रे दोषाद्भवति कस्यचित् तद्वदात्मनि देहत्वम् पश्यत्यज्ञानयोगदः चक्षुर्भ्यां भ्रमशीलाभ्यां सर्वं भाधिभ्रमात्मकं तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगदः अलादं भ्रमणेनैव वर्तुलम् भादि सूर्यवद तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगदः मखत्वे सर्ववस्तूनामणुत्वम् ह्यदिदूरदः तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगदः सूक्ष्मत्वे सर्ववस्तूनां स्थूलत्वं चोपनेत्रदः तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगदः काजभूमौ जलत्वं वा जलभूमौहि काचद तद्वदात्मनि देहत्वम् पश्यत्यज्ञानयोगदः यद्वदग्नौ मणित्वं हि मणौ वा वह्निधापुमान् तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगदः अभ्रेषु सत्सु धावत्सु तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगधः यथैव दिग्विपर्यासो मोहाद्भवति कस्यचित् तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगधः यथा जले भादि चञ्चलत्वेन कस्यचित् तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः एवमात्मन्यविद्यादो देहाध्यासो हि जायते स एवात्म च परात्मनी सर्वमात्मतया ज्ञानं जगत्स्थावरजङ्गमम् अभावात् सर्वभावानां देहता चात्मनः कुतः आत्मानाम् सददम् जानन् कालम् नयमः मदे प्रारब्धमखिलम् भुञ्जन्नाद्वेगम् कर्तुमर्हसि उत्पन्नेऽप्यात्मविज्ञाने प्रारब्धम् नैव मुञ्जति इदि यच्छ्रूयते शास्त्रे तन्निराक्रियते अधुना तत्त्वज्ञानो दयादूर्ध्वं प्रारब्धं नैव विद्यते देहादीनामसत्यत्वाद्यथा स्वप्नः स्वप्नप्रबोधतः। कर्मजन्मान्तरीयं यत्प्रारब्धमिति कीर्तितं तत्तु जन्मान्तराभावात् पुंसो स्वप्नदेहो यथाध्यस्तथैवायम् हि अध्यस्तस्य कुतो जन्म जन्माभावे स्थिति कुतः उपादानम् प्रपञ्चस्य मृद्भाण्डस्येव कथ्यते अज्ञानम् चैव वेदान्तैस्तस्मिन्नष्टे क्व विश्वता यथा रज्जुं परित्यज्य सर्पं गृह्णादि वैभ्रमाद तद्वत् सत्यमविज्ञाय जगत्पश्यति मूढधीः रज्जुरूपे परिज्ञादे सर्पभ्रान्तिर्नतिष्ठति अधिष्ठाने तथा ज्ञादे प्रपञ्चशून्यतां व्रजेद देहस्या विप्रपञ्चत्वात् प्रारब्धा वस्थिधिकृतः अज्ञानिजनबोधार्थं प्रारब्धं वक्तिवैश्रुतिः क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्ठे परावरे बहुत्वं तन्निषेधार्थं श्रुत्या गीतं च यत्स्फुटम् उच्यते जैर्बलाचान्वयागम वक्षे मदान यदो ज्ञानिधिश्रुतिपंचांगक्ष्ये पूर्वो सिद्ध तैसदा निदिध्यासनमेव नित्याभ्यासादृते प्राप्तिर्न भवेत् सच्चिदात्मनः तस्माद् ब्रह्म निदिभ्या सेज्जिज्ञाशुश्रेयसे चिरम् यमो हि नियमस्त्यागो मौनम् देश्यश्च कालदः आसनम् मूलबन्धश्च देहसाम्यम् च दृक्स्थितिः प्राणसंयमनं चैव प्रत्याहारश्च धारणा आत्मध्यानम् समाधिश्च प्रोक्तान्यङ्गानि वैक्रमाद सर्वं ब्रह्मेदि विज्ञानादिन्द्रियग्रामसंयमः यमोऽयमिति सम्प्रोक्तोऽभ्यसनीयो मुहुर्मुहुः सजातीयप्रवाहश्च विजातीयतिरस्कृतिः तिरस्कृतिहि नियमोहि परानन्दो नियमात् बुधैहि बुधैः त्यागप्रपञ्चरूपस्य चिदात्मत्वावलोकनाद त्यागो हि महदाम् पूज्य सद्यो मोक्षमयो यतः यतो वाचो निवर्तन्ते अप्राप्य मनसा सह यन्मौनं योगिभिर्गम्यं तत् भजेत् सर्वदा बुधः वाचो यस्मान्निवर्तन्ते तद्वक्तुं के न शक्यते प्रपञ्चो यदि वक्तव्यसोऽपि शब्दविवर्जितः इति वा तद्भवेन्मौनं सदां सहजसंज्ञां मौनं तु बालानां प्रयुक्तं ब्रह्मवादिभिः आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते येनेदं सतदं व्याप्तं सदेशो विजनस्मृतः कलनात् सर्वभूतानां ब्रह्मादीनां निमेषतः कालशब्देन निर्दिष्ठो ह्यकण्ठानन्दकोद्वयः सुखेनैव भवेद्यस्मिन्नजस्वं ब्रह्मचिन्तनम् आसनं तद्विजानीयान्यतरः सुखनाशनं सिद्धं यत् सर्वभूतादि विश्वाधिष्ठानमव्ययम् यस्मिन् सिद्धासमाविष्टास्तद्वै सिद्धासनं विदुः यन्मूलम् सर्वभूतानां यन्मूलम् चित्तबन्धनम् मूलबन्धः सदा सेव्यो योग्योऽसौ राजयोगिनाम् अङ्गानां समदाम् विद्यात् समे ब्रह्मणि लीनदां नो समानत्वमृजुत्वम् शुष्कवृक्षवदृष्टिम् ज्ञानमयीम् कृत्वा पश्यद् ब्रह्ममयं जगद सा दृष्टिः परमोदारा न नासाग्रावलोकिनी विरामो यत्र वा भवेत् दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनाद निरोधः सर्ववृत्तीनाम् प्राणायामः स उच्यते निषेधनम् प्रपञ्चस्य रेचकाघ्यः समीरणः ब्रह्मैवास्मितिया वायुरीरिदः तदस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः अयं चापि प्रबुद्धानामज्ञानां ख्राणपीडनम् विषयेष्वात्मतां दृष्ट्वा मनसश्चितिमज्जनं प्रत्याहारस्स विज्ञेयोभ्यसनीयो मुमुक्षुभिः यत्र यत्र मनो यादिब्रह्मणस्तत्र दर्शनाद मनसो धारणं चैव धारणा सा परामदा ब्रह्मैवास्मीति सद्वृत्या निरालम्बतया स्थितिः ध्यानशब्देन विख्याता परमानन्ददायिनी निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः वृत्तिविस्मरणम् सम्यक् समाधिज्ञानसञ्ज्ञकः येवाञ्चाकृत्रिमानन्दम् तावत् साधु समभ्यसेद वश्यो यावत्क्षणात् पुं सः प्रयुक्तः सन् भवेत् स्वयम् तदः साधननिर्मुक्तसिद्धो भवति योगिराड तत्स्वूप न चैक्य विषय मनसो गिरा सध क्रिय विघ्न न्यांति वैबलाद असंधानरा भोगलालस भाववृत्या हि भावत्वं शून्यवृत्त्या हि शून्यदा ब्रह्मवृत्त्या हि पूर्णत्वं तदा पूर्णत्वमभ्यसेद ये हि वृत्तिं जगत्येनां ब्रह्माख्यां पावनीं परां वृथैव ते पशुभिश्च समानराः ये हि वृत्तिं विजानन्दि ज्ञात्वापि वर्धयन्ति ये ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये येषां वृत्तिसमावृद्धा परिपक्वा च सा पुनः ते वै प्राप्ता नेदरे शब्दवादिनः कुशला ब्रह्मवार्तायाम् वृत्तिहीनाः सुरागिणः ते प्यज्ञानतया नूनम् पुनरायान्ति यान्ति च बिना। न तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः कार्ये कारणता याता कारणे न हि कार्यता कारणत्वं स्वतो गच्छेत् कार्याभावे विचारदः अधशुद्धं शुद्धं भवेद्वस्तु यद्वै वाचामगोचरं द्रष्टव्यं मृत्स्खडेनैव वा दृष्टान्तेन पुनः पुनः अनेनैव प्रकारेण वृत्तिर्ब्रह्मात्मिका भवेद् उदेदि शुद्धचित्तानां वृत्तिज्ञानं ततः परं कारणं व्यदिरेकेण पुमानादौ विलोकयेत् अन्वयेन पुनस्तद्धि कार्ये नित्यं प्रपश्यति कार्ये हि कारणं पश्येत् पश्चात्कार्यं विसर्जयेत कारणत्वं स्वदो नश्येदवशिष्टं भवेन्मुनिः भाविदं तीव्रवेगेन यद्वस्तु निश्चयात्मना पुमांस्तद्धि भवेत् शीघ्रं ज्ञेयं भ्रमरकीडवद अदृश्यं भावरूपंच सर्वमे सावधानतया नित्यं स्वात्मानं भावयेद् बुधः दृश्यं स्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेद् विद्वान् नित्यसुखे तिष्ठे धिया छिद्रसपूर्णया येभिरङ्गैः समायुक्तो राजयोग उदाहृदः किञ्चित् पक्वकषायाणाम् हर्ढयोगेन संयुतः परिपक्वम् मनो येषाम् केवलोऽयम् च सिद्धितः गुरुदैवदभक्तानाम् सर्वेषाम् सुलभो ज इति श्रीमत् शङ्कराचार्यविरचिता अपरोक्षानुभूतिः समाप्ता ओ